श्रीहरये नमः अथ सप्तविंशोऽध्यायः श्रीभगवानुवाच प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैर् अविकारात् कर्तृत्वा निर्गुणत्वात् स एष यर्हि प्रकृतेर्गुणेष्वभिषज्यते अहङ्क्रिया विमूढात्मा कर्तास्मीत्यभिमन्यते तेन संसारपदवीम् अवशोभ्येत्यनिर्वृतः प्रासङ्गिकै कर्म दोषे सदसन्मिश्रयो निशो अर्थे ह्य संश्रुतिर्न निवर्तते ध्यायतो विषयानस्य स्वप्नेनार्थागमो यथा अत एव सनैश्चित्तं प्रसक्तम् सतांपते भक्तियोगेन तीव्रेण विरक्त्या च यमादि येध्वसं यमादिभिर्योगपथे अभ्यसन् श्रद्धयान्वितः मयि भावेन सत्येन मत्कथाश्रवणेन च सर्वभूतसमत्वेन निर्वैरेण अप्सरङ्गतः ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा यदृश्ययोपलब्धेन सन्तुष्टोमिद भुङ्मुनिः विविक् तः शरणः शान्तो अकुर्वन्न सदाग्रहम् ज्ञानेन दृष्टतत्त्वेन ब्रकृते पुरुषस्य च निवृत्तबुद्ध्यवस्थानो धूरीभूतान्यदर्शनः उपलभ्यात्मनात्मानं चक्षुषेवार्गमात्मदृक् मुक्तलिङ्गं सदा भाषम् असति सथो सधोबन्तुमचक्षो सर्वानुस्यूतमद्वयम् यथा जलस्त आभास स्थलस्तेनावदृश्यते स्वभासेन तथा सूर्यो जलस्तेन दिवि स्थितः एवं त्रिवृदहङ्कारो बोधेन्द्रियमनोमयैः स्वभासैर्लक्षितोनेन सदा भासेन सत्यदृग्भूतसूक्ष्मेन्द्रियमनो बुद्ध निद्रया लीनेष्वसति यत्तत्र विधिन्त्रो निरहङ्क्रियः मन्यमानस्तधात्मानम् अनष्टो नष्टवन्मृषा नष्टेऽहङ्करेणे द्रष्टा नष्टवेत्तयि वातुरः एवं प्रत्यवमृस्यासो आत्मानम् प्रतिभध्यते साकङ्कारस्य द्रव्यस्य योऽवस्थानमनोग्रहः देवहूतिरुवाच पुरुषम् प्रकृतिर्बृंहन्न विमुञ्चति कर्हि चेत् अन्योन्यापाश्रयत्वाच नित्यत्वा तनयो प्रभो यथा गन्धस्य भूमेश्च न भावो व्यतिरेकदा अपां तथा बुद्धे परस्य च अकर्तुकर्मभोऽयं पुरुषस्य यदाशयः गुणेषु सत्सु प्रकृते कैवल्यं तेष्वतः कथं मर्षेन निवृत्तम् भयमुल्भणं अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते श्रीभगवानुवाच अनिमित्तनिमित्तेन स्वधर्मेण अमलात्मना तीव्रयामयि भक्त्या च श्रुतसम्प्रधाशिरं ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा तपायुक्तेन योगेन तीव्रेण आत्मसमाधिना प्रकृतिपुरुषस्येह दह्यमानात्वहर्निशं तिरो भवित्रीसनकै अग्नेर्योर्निवारणिः भुक्तभोका परित्यक्ता दृष्टदोषा च नित्यसहा नेश्वरस्याशुभं दत्ते स्वेमहिं निस्थितस्य च यताह्यप्रतिबुद्धस्य प्रस्वापो भक्वनर्थब्रत् स एव प्रतिबुद्धस्य न वै मोहाय कल्पते प्रकृतिर्महि मानसं युज्यतो नापकुरुत आत्मरामस्य कर्हि चेत् यथैवम् अध्यात्मरथ कालेन बहुजन्मना सर्वत्र जातवैराग्य आब्रह्म भुवनान्मुनिः मद्भक्तप्रतिबुद्धार्थो मत्प्रसादेन भूयसा निःश्रेयसं स्वसंस्थानं कैवल्याक्यं मदाश्रयं प्राप्नोतिहाज्ञसाधीर स्वदृशाचिह्नसंशयः यद्गत्वा न निवर्तेत योगी लिङ्गात् योगी यथा न योगोपचिता सु मायासुसिद्धस्य विषज्जते घ अनन्यहेतुष्मतमे गति स्यात् आद्यन्ती इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे कापिलो यो भाग्याने सप्तविंशोऽध्यायः सर्वत्र गोपिका govinda govinda sadguru natamagaraj ke jai